सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा उत्तमं महोदय धन्यवादाः धन्यवादः नमो नमः अस्तु नमो नमः अद्य अस्माभिः वाख्यांशः सः वीना पठनीयः अस्ति सः वीना सः इति एकः अंश दीना कानिचन वाक्यानि वदामि अटति अटति भ्रमणम करमणम कौती चलती गुर अस्ट शिष्य अ चल गुस् शिष्य सह शिष्य शिष्येण सह भ्रमणं करोति गुरुः शिष्येण सह अटति अत्र पश्यन्तु गुरुः इति प्रथमान्तपदं प्रथमा विभक्ति शिष्येण तत्र विभक्तिका कदति अद्य विभक्तिका जयन्ती भगिनी हा तृतीया हरि ओम् नमस्कारः शिष्येण सह भ्रमणं करोति तत्र एकः बालकः अस्ति तस्य मित्रम् अपि अस्ति बालकः अस्ति मित्रम् अस्ति मित्रे सह अटति बालक मित्रे सह अटति अब्दे योजना मैं कृता पर मित्रे तभक्ति कामी राजा नृपः राजा, राजा कविना सह चर्चां करोति कविना कविशब्दस्य कविना इति रूपम् अहं योजितवती तत्र कविना सह कविना इत्युक्ते तृतीया तृतीया एव इत्युक्ते तत्र सहयोगे तृतीया यदा यदा सः इति अव्ययस्य योजना भवेत् तदा तदा तत्र तृतीया एव भवति तृतीयायाः प्रयोगः एव प्रचलति सहयोगे तृतीया अत्र गुरुः शिष्येण सह चलति बालकः मित्रेण सह चलति राजा कविना सह चर्चाम् करोति इतं वादी सूचय कथम तक अस्क अति क्रीडन कौतीक अस्टन कौतीक क्रीड़ती ती अ बालक सा मिल्ला क्रीडन करोति सः शब्दस्य योजनेन वाक्यं कथं भवेत् वदतु रमणीभगिनी भवती वदति वा बालकः मातृ बालकेन तत्र अस्ति मात्रा सह इति अस्ति Oh, okay. मात्रा मात्रा इति तृतीयान्तपदं मात्रा सह क्रीडति एकवारं वदतु बालकः बालक मात्रा सह क्रीडनं करोति सम्यक् अत्र <laughs> पश्यन्तु यदि शब्दः अत्र प्रान्तभवेत् तत् कथं भवति रामः अस्ति चेत् कृपया रामेण रामेण रामेण रामैः इति क्षम्यतां बहुवचनान्तपदं रामैः तत्र माला अस्ति वा गीता अस्ति तत् कथं भवति कोपि वदति वा सम्यक् मालया बहुवचनान्तं किं भवेत् मालया मात्रा को कविरात मात्र तृतीया विभक्तिवचना तृतीया विभक्ति बहुवचना पिता पितृभि एक इदानीम् अत्र इतोपि एकः अंशः अस्ति हा पश्यन्तु विना कृषकः अस्ति कृषकः यदि हल नास्ति चेत् कर्षणं कर्तुं शक्नोति वा कृषकः हलेन विना न कृषकः हलेन विना न कर्षति अत्रापि हलेन इति तृतीया विभक्ति कुञ्चिकया विना तालस्य उद्घाटनं न भवति कुञ्चिकया विना तालस्य उद्घाटनं न भवति कुञ्चिकया अत्र विभक्ति का तृतीया स्त्रीलिङ्गपदमेकवचनं तृतीया एकवचनं श्री कुञ्चिकया विना कुंचिकयाल्घाटन नालिस्टिजनी अस्सी सम्जनी सर्जनी हाँ स्वच्छीकरण सम्जनिया स्वच्छता न कौन सम्जन सम्जनिया इत्युक्ते यथा सम्मार्जने नदी एव चलति सम्मार्जन्या विना बालिका स्वच्छतां न करोति लेखनं करणीयमस्ति लेखनस्य कृते का आवश्यकी इदानीं वदतु जयन्ती भगिनी लेखनी आवश्यकी लेखन्या विना लेखनं न भवति न भवति लेखन्या विना लेखनम् अत्र एकः अंशः अस्ति हा तत् वदामि प्रथमता पश्यन्तु हा तत्र गीतायां प्रथमे श्लोके एव धृतराष्ट्रः अस्ति सञ्जयः अस्ति प्रथमे श्लोके एव धृतराष्ट्रः तत्र पृच्छति मामका पाण्डवाश्चैव किम् मा अकुर्वत इति तत्र धृतराष्ट्रः वक्तुं शक्नुमः संजयेन सह वार्तापमें वा संभाषण कौती धृतराष्ट्र संजयेन सह संभाषण कौती कृष्ण राधया सह नृत्य राधया सह नृत्य इदानम यदा अहम वादा वृद्ध अस्सी वृद्धः अस्ति तत् चलनस्य कृते कर्तव्यं काठिन्यं वर्तते अतः दण्डं स्वीकृत्य सः चलति दण्डं स्वीकृत्य सः चलति तत् अत्र वृद्धः पश्यन्तु सर्वे अवधानं ददातु वृद्धः दण्डेन सह चलति वाक्यं समीचीनं वा अवश्य महोदय भवान् वदतु वृद्धः दण्डेन सह चलति वाक्यं योग्यं वा वृद्धः दण्डेन सह चलति चलति चलति वाक्यं समीचीनमस्ति वा इस् दिस् सेण्टेन्स् करेक्ट् तत्र प्रथमे वाक्ये गुरुः चलति शिष्यः चलति गुरुः शिष्येण सह चलति बालकः क्रीडति माता अपि क्रीडति बालकः मात्रा सह क्रीडति तत्र कर्तुपदं यत् अस्ति गुरुः तत्र कर्तृप्रदस्य योजना क्रियापदेन सह भवति गुरुः चलति शिष्यः अपि तत्र चलति अतः वयं वक्तुं शक्नुमः शिष्येण सह चलति परन्तु अवस्टमहोदय तत्र कर्तृपदं वृद्धः वृद्धो वृद्धः इति सब्जेक्ट् ओके सो so, वृद्धः दण्डेन सह चलति इत्युक्ते तत्र दण्डः अपि चलति वा दण्डः चलति वा स्वयं चलति वा चलनक्रिया देट् इस् दि एक्षन् इट् वास् डन् बै वृद्धः एव बालिका बालकेन सह चलति एट् इस् बोत् इस् बाय् एण्ड् अ गर्ल् दे कोरिलेट् वित् अ वर्ब् अवस्टमहोदय बालिका चलति बालिका गच्छति बालकः अपि गच्छति बालिका बालकेन सह गच्छति परन्तु वृद्धस्य विषये कथं भवति वाक्यं वृद्धः दण्डेन चलति ट् साल् तत्र सः इति न उपयोजितुं शक्नुमः इतिना न वृद दंडेन चलती साधकूपेण आगती कर्णेण आगती दंड स्वयं न चल चलनक्रिया कौती वृद्धव बालक सहज गच्छति तक अभी गालिका अभी गो कर्तपदम बालिका तत्क अ कार्यमेव करोति बोट् दिस् एन् दिस् सेण्टेन्स् इम् सेयिङ्ग् आगस्टु महोदय बालिका बालकेन सह चलति एक्शन् इस् डन् बोट् बै द बोय् एण्ड् द गर्ल् सो देर् इस् कोरिलेशन् फोर् बोत् आफ़् देम् देर् इस् कोरिलेशन् टु द बब् बट् इन् केस् आफ् वृद्धः तत्र वृद्धः इस् गेटिङ्ग् कोर्डिनेटेड् वित् द क्रिया चलति न दण्डः अतः तत्र सः शब्दस्य योजना मा भवेत् इति वृद्धः दण्डेन चलति तृतीया परन्तु सह इति न आगच्छति वृद्धः दण्डेन चलति एवं भवति अवगतम् अवस्तु महोदय अवगतम् इदानीं पश्यन्तु रामः युद्धं कृतवान् रामः युद्धं कृतवान् रावणः अपि वृद्धं कृतवान् अत वक्त शुरा रावण युद्धम रावणेन सह युद्धं युद्धं रावणेन सह युद्ध त आगछति मे मं कौती तु पुत्री अः मार्म कौतीी अं कथ वाक्यम कथम होती जयंती भगिनी माता तहग्य किमता कौतीी अं कौ सह कार्य कौंतु यदा अहम वादा त्रालिका गौरी सा मुखम प्रक्षाती बेणी कृते मम तु सन्देहः मम एकः सन्देहः अस्ति वेणी वृद्धः दण्डं विना न चलति तत् सत्यं दण्डेन विना दण्डेन विना वृद्धः दण्डेन विना न चलति तत् विना योगे तत्तु परन्तु सः योगे या तृतीया भवति तत्र अस्माभिः अवधानं दातव्यं तत्र कर्तुपदस्य वट् ऐ टोल्ड् कोरिलेशन् कर्तुपदस्य कोरिलेशन् देट् इस् सब्जेक्ट् टु बि कोरिलेटेड् टु द वर्क् इति अस्ति इदानीं शृणोतु भगिनी तत्र गौरी नाम्ना एका बालिका सा जलम् उपयुज्य मुखप्रक्षालनं करोति जलम् इति तस्याः साधनं मुखप्रक्षालनार्थं जलं साधनं Mm. गौरी जलेन सह मुखं प्रक्षालयति इति सम्यक् भवति वा जलेन मुखं प्रक्षालयति मेनि बै स्पीकिङ्ग् दिस् मिस्टेक् इस् वेरि कामन् वि हव् टु सो जलेन mm. in, in मुखं प्रक्षालयति न जलेन सह तत्र जलं नाट् डिरेक्ट्लि इन्वाल् इन् क्रिया गौरीमुखं <Gauri> प्रक्षालयति तस्याः साधनं करणं जल अथ गौरीजलेन मुखं प्रक्षालयति अस्तु एवम् परन्तु भगिनी मीनः जलेन विना न जीवति तत्र विना योगीकृत्या विना न जीवति अस्तो तथ अहम अहम कार्य कौन हाँ अहम हाँ तर हस्त उपयुज्य अस्त उपयुज्य अहम कार्य कौनी अहम हस्ताभ्या त्र तृतीया द्विवचन अहम इक वक्त अहम नेश्या अहं hmm. कर्णाभ्यां शृणोमि अहं hmm. पादाभ्यां चलामि चलामि hmm. भ्रमणं करोमि तत्र hmm. हस्ताभ्यां सह कार्यं करोति भवती वा no. न भवति हस्ताभ्यां hmm. सह न hmm. hmm. हस्त इति मम हस्तद्वयमिति मम साधनरूपेण आगच्छति अहं hmm. करोमि मम कार्यस्य कृते हस्दय साधनूेण आगछ अहम पश्या मम क्रिया दर्शनक्रिया तथा नेेण कर्णे साधनूपेण पाद पाद साधनूपे पाद्यां चलामी पादाभ्या अटन कमुस्शक अस्म Uh, mm -hmm. वदतु mm -hmm. बालकः अस्ति लेखनी अस्ति mm -hmm. बालकः लेखनी अस्ति अत्र लेखनी mm -hmm. गमनक्रिया करोति वा कथं कथं वयं वक्तुं बालकः लेखन्या सह गच्छति इति योग्यं न लेखन्या सह गच्छति न लेखनीं नीत्वा आगच्छति लेखनीं धृत्वा आगच्छति लेखनीं गृहिणी <Grihyi> गच्छति एवं लेखनीम् उत्थाय गच्छति लेखन्या सह गच्छति एवं न भवति अस्तु अस्तु इतोपि एकम् उदाहरणं स्वीकुर्मः अनन्तरं वयं किञ्चित् तत्र वेब्सैट् उपरि किं दत्तमस्ति पश्यामः अस्तु अम्बिकापतिमहोदय इदानीं वक्तुं शक्नोति चन्द्रपिः अस्ति कपिः अस्ति वृक्षात् सः कपिः पतति वृक्षात् सह कपिः पततिः कपिः पतति तस्मिन् एव समये फलम् अपि पतति फलम् अपेक्षम् अत्र कथं वाक्यं कथं भवति किञ्चित् चिन्तयतु कपिः अपि सः वृक्षाः पतति पतन्ति फलेन सह तृतीया अस्ति सह पत किमर्थम् तत्र कपि पतति फल अपि पतति तस्मिन्नेव समये कपि फलेन सह पतति पतनक्रिया पतनक्रियायाः कर्तुपदं कपि अपि अस्ति फलमपि अस्ति कपि फलेन सह पतति अस्तु तत् इदानीं वेब्सैट् उपरि किमस्ति तत् वयं पश्यामः इतोपि वेब्सैट् उपरि पश्यामः अग्रिमीञ्चि स् पश्यन्तु सर्वे अत्र दृश्यते स्क्रीन् दृश्यते अत्र अस्माभिः सः विना पेज् नम्बर् थर्टि -फोर फोर् गोयिङ्ग् बोन् एकपि अप् टु पेज् फोर्टि नैन् अनन्तरम् अस्माकं द्वितीयस्तरस्य पठनं भवेत् अस्तु सः विना अम्बिकापति महोदय भवान् आरम्भं करोति वा सह. सः पुत्रेण किञ्चित् उपरि करोतु सः पुत्र सह.. पुत्रेण सह आपनम गच्छति सा सख्या सह.. विद्यालयं गच्छति तत्र सा अपि गच्छति सखी अपि गच्छति सः अपि गच्छति पुत्रः अपि गच्छति ज्ञानेन पठतु अवगच्छतु च रामः रावण रामः रावण सह युद्धं कृतवान् रावणेन सहेन सह रावणेन सह कृतवान् लक्ष्मणः रामेण सह वनं गतवान् गोपालः माधवः सः माधवे माधवः गोपालेन सह माधवः अभ्यासं करोति तदपि शक्नु अग्रिमे अग्रिमे अहं मित्रं नाटकं पश्यामि अहं मित्रेण सह नाटकं पश्यामि सम्यक् अग्रिमे अग्रिमे अहम् अहमहं मित्रे अहं मित्रेण सह एषा एषा सीता तिष्ठति एषा सीताया सह तिष्ठति तत्र सीता इति आकारान्तस्त्रीलिङ्गीतया श्रीलिङ्ग् सुरेशः भगिनी भगिन्या सह सम्भाषणं सम्भाषणं करोति माता पुत्र्या सह कार्यं करोति अध्यापकः छात्रैः सह छात्रैः सह प्रवास प्रवासार्थं गतवान् एक एकनिमिषं तत्र सप्तमे वाक्ये तत्र, नहीं। एक, एक नहीं। तत्र, तत्र... आ... <laughs> माता पुत्र्या सह तत्र पुत्र्या तत्र पुत्रिया, तत्र, तत्र... तत्र पु, माता पुत्र्या सह तत् न सम्यक् तत्र सह एवं भवति नदीनद्या पुत्रैः अशुद्धं पुत्री इति अशुद्धं पुत्र्या पुत्र्या एव अग्रिमे अध्यापकः छात्रैः सह सह वासार्थं प्रवासार्थं गतवान् छात्रेण किमर्थं नास्ति तत्र छात्राः पुल्लिङ्गीलिङ्गात्राः छात्राः अतः छात्रैः तदपि तृतीया विभक्ति बहुवचनान्त बहुवचनं छात्रैः सह प्रवासार्थं गतवान् रामैः समानं लता सखि सखीभिः सह क्रीडति लता सखीभिः सह सख्यशब्दस्य सखिभिः सख्या सख्या सखिभ्यां सखिभिः इति सख्या एकवचनानि सखिभ्या सखिभिः एव धन्यवादः धन्यवादः धन्यवादः मादः अग्रिमे हा जयन्तीभगिनी पठति वा तृतीयाविभक्त्यन्तरूपाणि hmm. तृतीयाविभक्त्यन्तरूपाणि एकवचनं बहुवचनं छात्रेण इति एकवचनं छात्रैः इति बहुवचनम् मित्रेण इति एकवचनं मित्रैः इति बहुवचनं बालिकया स्त्रीलिङ्ग एकवचनं बालिकाभिः बहुवचनं सख्या hmm. एकवचनं सखीभिः बहुवचनम् अभ्यासः एतेषु वाक्येषु पदानि अव्यवस् अव्यवस्थितानि सन्ति तानि hmm. व्यवस्थितः व्यवस्थितरूपेषु लिखतु hmm. यथा करोति सः दिनेशः मित्रैः hmm. प्रतिदिनम् अभ्यासम् दिनेशः मित्रैः सह अभ्यासं करोति आगतवान् सः कः भवता भवता कः भवता सह आगतवान् भवता mm. इति तृतीयान्तपदं कः भवता mm. सह आगतवान् mm. भवान् तु आगतवान् भवता mm. सह कः आगतवान् mm. mm. वा ah, कः भवता सह आगतवान् mm. सम्यक् हा अग्रिमे कलहं कलहं सः सः करोति सर्वैः कलहं सारि सर्वैः सह सः सर्वैः सह कलहं करोति सः सर्वैः सह कलहं करोति तत्र कश्चन मनुष्यः कलहप्रियमनुष्यः सः सर्वैः सह कलहं करोति आगच्छामि आगच्छामि वा अहम् अपि सः भवत्या अहम hmm. अहमपि भवत्याः सह आगच्छामि वा कुत्रचित् ah. hmm. गन्तव्यमस्ति अहमपि hmm. आगच्छामि hmm. वा भवत्या सह इति पृच्छति भवती ah. अग्रिमे युद्धं युद्धं सैनिकः सः करोति शत्रुभिः hmm. युद्धं शत्रुभिः सह सा, सैनिकः शत्रुभिः सह युद्धं करोति सम्यक् सम्यक् करोति कारो, वैद्यः सः रोगिभिः सम्भाषणं वैद्यः रोगिभिः सह सम्भाषणं करोति ललिता सह कृतवती चर्चाम् अध्यापिका अध्यापिकाभिः ललिता अध्यापिका अध्यापिकाभिः सह चर्चां कृतवती सम्यक् अस्माभिः तत्र सः शब्दस्य योजना यदा भवेत् तस्मात् प्राक् तृतीयान्तपदं भवेत् एव इति अस्तु अस्तु धन्यवादः धन्यवाद धन्यवामणी भगिनी धन्यवादः रमणी भगिनी अग्रिमे करोति वा आं भगिनी सः उपयुज्य वाक्यानि रचयतु राजेशः mm. मनीषः सः पठति राजेशः mm. मनीषेण सह पठति सम्यक् अभिषेकः प्रकाशः सः लिखति अभिषेकः mm. प्रकाशेन सह लिखति तत्र प्रकाशेन सि प्रकाशे ओ प्रकाशेण भगिनी अनुजः सः नृत्यति भगिनी अनुजस् अनुजस्य अनु अनुजेन सह नृत्यति अनुजेन सह नृत्यति पिता पुत्री पिता पुत्री सः क्रीडति पिता पुत्र्या पुत्र्या सह क्रीडति पुत्रः पुत्रः जननी सः गच्छति पुत्रः जनन्या सह गच्छति माला सीता सः खादति माला सीताया सीतया सह खादति रामः पिता सः धावति रामः पित्रेण सह धावति पित्रा भगिनी पित्रा पितृभ्यां पितृभी एवमस्ति धन्यवादः पिता पित्रा सह धावति शिशुः माता सः हसति शिशुः मात्रा सः हसति सम्यक् कृष्णः धा सः विहरति कृष्णः राधया सः विहरति अनुराधा मातुलः सः आपणं गच्छति अनुराधा मातुलेन सह आपणं गच्छति मातुलः इत्युक्ते कः भवती जानाति वा मातुल अङ्कल् कौस सम्यक् कौश इति कृष्णस्य मातुलं मातुलम् छात्रः अध्यापिका सः वार्तालापं करोति छात्रः अध्यापिकया सः वार्तालापं करोति सम्यक् उत्तमं भगिनी धन्यवादः धन्यवा धन्यवादः धन्यवादः ओगस्ट् महोदय भवान् आरम्भं करोति वा विना एतस्य पठनम् भगिनि विना विना विना इति अव्ययं विना मीन्स् विदौट् विना इति पदम् उपयुज्य वाक्यानां वाक्यानां रचनम् उपयुज्य उपयोगं कृत्वा उपयुज्य ल्यप्रत्यय तत्र उपयुज्य उपयोगं कृत्वा वाक्यानां रचनं पठतु मीनः hmm. जलं तृतीयजलेन विना न जीवति जलं नास्ति चेत् मीनः न जीवितुं शक्नोति जलेन विना न जीवति तैलेन विना न चलति तत्र लुब्रिकण्ट् इति तैलम् इति तैलस्य आवश्यकता तत्र वाहनम् तैलेन विना तैलम् तृतीय तैलेन तैलेन विना विना योगे तृतीया विना विदाउट, न चलति तैलं नास्ति चेत् न ना चलति अग्रिमेकनिमिषम् दृश्यते यस्मिति माता पुत्रे पुत्रेण विना भोजनं न करोति न करोति माता पुत्रस्य कृते प्रथमं चिन्तनं करोति माता पुत्रस्य भोजनम् पुत्रेण विना भोजनं न करोति अग्रिमे मानवः वृक्षेण विना वृक्षाः न सन्ति चेत् जीवनम् अशक्यप्राय तत्र दृश्यते खलु कार्बन् डैआक्सैड् आक्सिजन् इति दृश्यते अवस्तु महोदय वृक्षाः नास्ति चेत् जीवनम् अशक्यमेव मानवः वृक्षेण विना न जीवति अग्रिमे पठतु महोदय विशेषसूचना विना mm. इति पदस्य प्रयोगः द्वितीया पञ्चमी च विभाग्यो अपि भवति mm. यथा mm. जलेन विना mm. मीनः न जीवति तत्र किं लिखितमस्ति विना प्रयोग विना प्रयोगस्य कृते द्वितीया अपि भवितुम् अर्हति तृतीया तु भवति एव तत् वयं दृष्टवन्तः विना न जीवन्ति जलेन विना न जीवति परन्तु तत्र द्वितीया पञ्चमी अपि जलम् इति द्वितीयान्तपदं जलं विना मीनः न जीवति जलात् विना मीनः न जीवति इति भवितुम् अर्हति द्वितीया पञ्चमी च विभक्त्योः अपि विना एतस्य प्रयोगः भवति इति दत्तमस्ति हा अत्र अत्र पठतु महोदय उदाहरणं दृष्ट्वा उदाहरणं दृष्ट्वा अन्यवाक्यानि लिखतु धनं जीवनं कठिनं धनेन विना जीवनं कठिनं इन्धनम् हनं चलति इन्धनेन विना इन्धनेन विना वाहनं न चलति नति सम्यक् पुस्तकेन बिना अहं विद्यालयं न गच्छ न गच्छामि सम्यक् अभ्यास् अभ्यसेन विना शास्त्रं नश्यति नश्यति अभ्यासेन सर्व सिद्ध्यते विना अभ्यासेन शास्त्रं नश्यति शास्त्रस्य कृते अभ्यासः अति आवश्यकः अग्रिमे गृहिण्या गृहिण्या विना गृहम् निरार्थकं भवति सम्यक् गृहिण्या गृहं निरर्थकं भवति गृहिणी इत्युक्ते का महोदय इति uh, अस्ति खलु right. होम्मेकर् होम्मेकर। uh. गृहिण्या विना गृहं निरर्थकं भवति तत्र किमपि अर्थं एव नास्ति गृहिणी तस्य गृहिण्याः गृहिणीपदस्य महत्त्वम् गृहिण्या विना गृहं निरर्थकं भवति अस्तु अग्रिमे पठनेन विना शास्त्राभ्यासः न भवति शास्त्राभ्यासः न भवति शास्त्रस्य अभ्यासः न भवति पठनेन विना अग्रिमे व्यायाम व्यायामेन विना स्वास्थ्यं न भवति सम्यक् दण्डेन विना वृद्धः न चलति दण्डेन विना वृद्धः न चलति एवमस्ति उत्तमं महोदय धन्यवादः धन्यवादः प्रश्नं पृच्छामि वा द्वितीयाविभक्ति वक्तुं शुद्धं वा दण्डं विना दण्डेन विना दण्डं विना दण्डं विना अपि पञ्चमी अपि दण्डेन दण्डात् विना विना, शुद्धं शुद्धं शुद्धं धन्यवादः धन्यवादः अत्र नूतनतया शिवत्स्य महोदय नमो नमः शिवत्स्य महोदय श्यामलाभगिनी अपि आगतवती नमो नमः अस्तु अस्तु अस्तु भगिनी तत्र किञ्चित् वयं मौखिकरूपेण विना सह तस्य अभ्यासं कुर्मः अनन्तरं कथायाः पठनमपि कुर्मः तत्र सर्वे अवधानेन शृण्वन्तु मौखिकरूपेण एव अस्माभिः अभ्यासः करणीयमस्ति तत्र महाभारतयुद्धप्रसङ्गे महाभारतयुद्धप्रसङ्गे किं किं भवति तत्र तत्र एकः भीमः दुर्योधनः भीमः युद्धं करोति दुर्योधन अपि युद्धं करोति इदानीं वाक्यरचनां करोतु आरम्भं कुर्मः श्रीवत्समहोदय भवान् वदतु भीमः अस्ति दुर्योधन अस्ति भीमः युद्धं करोति दुर्योधन अपि युद्धं करोति सः एतस्य योजनेन वाक्यरचनां करोति वा महाभारते भीमः महा दुर्योधन दुर्योधनेन दुर्योधने सह युद्धं करोति अस्तु अग्रिमे अर्जुनः कर्णः महाभारते अर्जुनः करणेन सह युद्धं करोति सम्यक् इदानीं सः देवः शकुनिः कथं भवति सः देवः शकुनि इति अस्ति शकुनि सः शकुनि तत्र शकुनि ना सह पश्यन्तु कविशब्दस्य कथं कविना कविभ्यां कविभिः कविना कविभ्यां कविभिः तत् शकुनिः शकुनीना सह एव युद्धं करोति अस्तु शिखण्डिः भीष्मः कथं वदतिखण्ड शिखण्डी शिखण्डी भीष्मेन सह युद्धं करोति सम्यक् उत्तमम् उत्तमम् धन्यवादः सम्यक् अस्ति विनायोगे अपि श्यामलाभगिनी भवती करोति वा विना श्यामलाभगिनी भगिनी तत्र सूर्यः अस्ति सूर्यप्रकाशः ददाति सूर्यनास्ति चेत् तत्र प्रकाशः नास्ति इदानीं विना शब्दस्य उपयोगं कृत्वा वाक्यरचना करोति सूर्यः विना सूर्यः विना सूर्योदयं नास्ति भगिनि अत्र विनायोगे विभक्ति का विनायोगे तृतीया सूर्य इति तृतीयान्तपदम् उपयुज्य वदतु सूर्येण सूर्येण सूर्य सम्यक् इदानीं भवती एव वदतु तत्र घटिः अस्ति घटी घटी इति अस्ति घटि घटि समयस्य ज्ञानं घटिं दृष्ट्वा एव भवति तत्र घटि नास्ति चेत् समयस्य ज्ञानं न भवति विना उपयुज्य वाक्यं वदतु कतिः विना कठे घटेन विना घटी भगिनी घटी नदी एव नदी विना नद्या तृतीया नदी ईकार नद्या नदीभ्यां नदीभिः घट्या घटीभ्यां घटीभिः घट्या विना समयस्य ज्ञानं न भवति अस्तु तत्र अस्तु इतोपि एकं प्रति इतो एव वदति दशरथः इति एकः नूपः प्रसिद्धः नूपः सः यदा रामः वनं गतवान् तदा सः न जीवितवान् mm. दशरथं न जीवितवान् रामः वनं गतवान् तदनन्तरं दशरथं न जीवितवान् इदानीं विना युज्य उपयुज्य वाक्यं वदतु रामः विना दशरथः न जीवितवान् विनायोगे विभक्ति का भगिनि विभक्तिका दशरथेन रामेण रामेण विना दशरथः न जीवति न जीवितवान् न जीवितवान् न जीवितवान् अस्तु भगिनि धन्यवादः कथापठनस्य आरम्भं कुर्मः वयम् अम्बिकापतिमहोदय भवान् आरम्भं करोति वा कारणतः धनस्य कारणस्य कष्टमस्ति इदानीम् आम् आं महा महाधनिकः महति सम्पत्तिः तस्य भोगजी भोगजीवनं या यापव्यापयं या सः वार्ध वार्धक्ये योगग्रतः जातः आदीनं शायानेन तेन विविधाः चिन्ताः प्राप्ताः मया जीवनं पुण्यः पुण्यं सम्पादनं किमपि न कृतम् अतः अतः परलोके मम गद् गतिः गद् गद् गतिः कथं स्यात् मम सम्पातेः सम्पातेः गतिः भवेत् इत्यापि न ज्ञायते धन्यवादः तत्र किं शक्तमस्ति गोलभ गोवल्लभः इति नाम्ना तत्र महाधनिकः पुरुषः तत्र अस्ति तस्य समीपे महती सम्पत्ति महती सम्पत्ति महती इति सम्पत्ति सेविङ्गी वर् भोगजीवनं यापयन् सः वार्धक्ये रोगग्रस्तः जातः किम् अभवत् जीवने भोगविषयस्य एव चिन्ता तस्य भोगजीवनयापयन् यापयन् यापयन तत्र स्पेण्डिङ्ग् टैम् इति भोगजीवने भोग यापन भोगजीवने एव तस्य समयः सः दत्तवान् भोगजीवनं यापयन् सः वृद्धावस्थायां रोगग्रस्तः जातः अनन्तरम् hmm. आदिनं शयानेन तेन विविधाः चिन्ताः प्राप्ता अम्बिकापतिमहोदय तत्र आदिनम् इत्युक्ते किम् आदिनमित्युक्ते dinam dinam aadinam shayanena aadinam shayanena aadinam It shayanena itukte throughout the day, throughout the day he used to sleep aadinam aadinam starting from the day that is starting Aadhinam. from the beginning of the day aarinam shayanena shayano itukte nidra in the bed in the bed, mm. bed. चिन्ताः प्राप्ता सम्यक् किं करणीयं चिन्ता चिन्ता किमपि न करोति वदतु पुण्य सम्पादनं किमपि न कृतं पुण्यसम्पादनं किमपि न कृतं इत्युक्ते न दानं कृतं न पुण्यकार्याणि नथिङ्ग् मया जीवने पुण्यसम्पादनं किमपि न कृतं चारिटि इत्युक्ते अतः अतः किं चिन्तितवान् सः पर, परमलोके परम परमलोके मम सङ्गतिः कथं स्यात् अकने गो टुगतिः स्वर्गलोक स्वर्गलोको ब्रह्मलोकः सद्गति अनन्तरं सः चिन्त्य चिन्तितवान् मम सम्पत्ति भवेत् so oh. हा अत्र पश्यन्तु अहमेकं स्मरामि um. दानं भोगो का वदति कोपि वक्तुम् इच्छति वा हा अस्तु तत्र एकं सुभाषितं स्मरामि दानं भोगो नाशा नाशा नाशा, ना, ना तिस्रः गतयो भवति भवन्ति अनन्तरं किं हा यो न ददाति न भुङ्क्ते तस्य कृत्या गतिः भवति हा न न ददाति अशो न भुङ्क्ते स्वस्य कृते अपि उपभोगं न स्वरो स्वीकरोति दानमपि न करोति तस्य सम्पत्तेः का गतिः नाशमेव भवति ्रः गतयो भवन्ति वित्तस्य सः किमपि न कृतवान् अन्येषां कृते अतः वार्धक्यसमये सः चिन्तितवान् आसीत् मम सम्पत्तिः का गतिः भवेत् अस्तु धन्यवाद अग्रिमे आगस्ट् मासे पठति वा एवम् एवं, एवं। किञ्चन मधुरं दानं श्रुतं गीतास्य आशयः आसीत् मरणकाले सतिसुता सतिसुतादयः साहाय्यं न ना कुर्वन्ति धनम् अपि न उपकरोति hmm. भगवद् भक्तिः hmm. सत्कर्माणि च hmm. कल्याणा कल्याणाय भवन्ति इति hmm. गीत गीतश्रवणे गीतश्रवणात् hmm. <coughs> गोवल्लभे गोवल्लभेन hmm. कश्चन आनन्दः प्राप्तः सः सेवकम् आहूय सूचितवान् यहा गायति तम् अत्र आनाय आनय इति धन्यवादः धन्यवाद सः धनिकः चिन्तामग्न अवस्थायाम् आसी. तस्मिन् समये तेन किञ्चन मधुरं गानं श्रुतं तत्र मधुरं गानं श्रवणे आगच्छति गीतस्य आशयः गीतस्य भावः कः गीतस्य आशयः आसीत् मरणकाले सति तत्र सति सुदायः संयुक्तरीत्या दत्तमस्ति परन्तु तत् मरणकाले सति सुतादयः सायं न कुर्वन्ति इति अस्ति कथमिति मरणकाले सप्तमी विभक्तिः सति सप्तमी इति एकः व्याकरणप्रयोगः अस्ति भाषायां दृश्यते सति सप्तमी मरणकाले सति यदा मरणकालम् आगच्छति चेत् सुतादयः सुतादय इत्युक्ते पुत्रादयः सुत पुत्र सुत्रादयः सायं न कुर्वन्ति धनम उपको धनमक लाभ नरजना परिवार ये जना सी ता कोप लाभ नास्म सहायक सहाय भगवद सत्कर्मा चल कल्याण तौंग कल्याण कल्याण वेलफेर हाँ कल्याण श्रेयस प्रेयस वाला चेत श्रेयस्कर भगवदर्मा कल्याण ददा कल्याणागवदर्मा तेषाम् एव उपयोगम् भवति गीतश्रवणात् गोवल्लभेन कश्चन आनन्दः प्राप्त अनन्तरम् अनन्तरम् अगस्ट् महोदय गो, गोवल्लभः किम् कृतवान् सेवकम् पठतु सः सेवकम् hmm. सूचितवान् यहा गायति तम् अत्र आनाय इत्युक्ते इत्युक्ते किम् क्षमतां भगिनि अत्र कश्चन गायकः अस्ति सः गीतं गायति गोवल्लभः धनिकः गीतं शृणोति अत्र hmm. अत्र सर्वे शुवा सह आन प्रा पशु अशं अोवल्ल चिंताग्रस्ग्रस् तनसी गीतश्रवण आनंद सतोषम उद्भव उद्भूतवा तोषमसक गातीम आनय just bring that person who is singing that please bring tam atra aanaya aanaya lotlakar madhyama purusha ekavachana tam atra aanaya bring that person bring that singer here mama samipe sah agacchet it is sah uktaman spashtam asti aghastam adiyo um morale's bhani ha huh. यः गायति तम् अत्र आनय अत्र हा अस्तु अग्रिमे अग्रिमे शरीमः अग्रिमे तत्र रमणी भगिनी भवती पठतु तदा तदा सेवकः अवदत् श्रीमन् सः न गाननिपुणः कश्चन चर्मकारः सः उत्साहे प्राप्ते कार्यं कुर्वन् एव कदाचित् उच्चस्वरेण एवं गायति सः इति कुत्र किमभवत् वदतु बगिनी. भाषायां भगिनी सेवकः गोवल्लभम् अवदत् सः यः गीतं गीतवान् सः गाननिपुणः नास्ति mm. चर्पकारः अर्थात् किं भगिनी भगिनि चर्मन् इत्युक्ते स्किन् चर्मन् तत्र चर्मकारः चर्मन् तस्य कार्यं करोति सः चर्मकारः सम्यक् यः गीतवान् सः चर्मकारः एव सः गाननिपुणः नास्ति तस्य उत्साहेन कर, कार्यं क करोति उत्साहेन एव सः कार्यं करोति अतः अतः उच्चरस्व उच्चस्वरेण सः गायति इति वद अवदत अत्र किमिक ये जानूपेण कार्य कहते गीतगा प्रचल हाँ उत्साह प्राप्त अथा उत्साह सप्तमी प्राप्त अभी सप्तमी उत्साह प्राप्त कार्य कुर त्यम प्रचल गीतगा प्रचल कार्य कव सह उच्चस्व गाया कशेष वो गान निपुण सेवक चर्मकृत्ति दृश्य है तेवक मनसी हृत्ति हाँ सह तो चर्मकार उत्साहस्य कृते उच्चस्वरेण एव गायति सः तज्ञा वा गाननिपुणः नास्ति एवमस्ति स्पष्टमस्ति स्पष्टमस्ति भगिनि हा अस्तु धन्यवादः जयन्ति भगिनी जयन्ती भगिनी आं भगिनि सम्भाषणं कृतवती यः यः कोऽपि भवेत् नामः सः यः कोऽपि भवेत् नामः सः तम् अत्र भगिनी तत्र नाम इति यः कोऽपि भवेत् नामशः भवतु नाम यद्यपि यज् आम् अस्तु किमे तं तम् अत्र आनय इति अवदत् धनिकः धनिकः उक्तवान् कोपि भवतु किन्तु अत्र आनय तम् अत्र आनय इति उक्तवान् ततः निपुणः न भवेत् ततः सेवकः तम् अन्तः आनीतवान् ततः सेवकः तं चर्मकारम् अत्र अन्तः आनीतवन्त आनीतवान् धनिकः तस्मै किञ्चित् धनं दत्त्वा भवतः गानस्य श्रवणेन मया काचित् तृप्तिः प्राप्ता इति धन धनिकवान् धनवान् उक्तवान् भवतः गानं श्रुत्वा अहं तृप्ति तृप्तीभूतवान् इति उक्तवान् तृप्ति तृप्तवान् अस् अस्मि इति उक्तवान् किञ्चित् धनमपि दत्वा तं सन्तोषं कृतवान् श्वः अपि एवम् एव गानं श्रावणीयम् ः अपि आगत्य एतादृशं गानं गा, श्रवणीयं श्रावणीयम् इति धन धनिकः उक्तवान् अहं hmm. श्वः अपि धनं दास्यामि इति अवदत् hmm. श्वः श्वः अपि आगत्य गानं श्रव श्रावणीयं तदापि hmm. अहं भवताम् दानम दास्यामि इति धनिकः उक्तवान् उक्तवान् सम्यक् भगिनि उत्तमम् उत्तमं धन्यवादः श्वः अपि आगच्छतु गीतं श्रावयतु तत्र श्रावणीयं श्रावयतु एतानि सर्वाणि निजन्तरूपाणि करोति कारयति पठति पाठयति तत् श्रावणीयं श्वः अपि आगच्छतु गीतं श्रावयतु श्वः अपि धनं दास्यामि इत्युक्ते सः प्रथमवारम् एवं किञ्चित् सन्तोषं प्राप्तवान् आसीत् अतः को अपि आगच्छतु तेन मम मनसि किञ्चित् सन्तोषः उद्भवेत् इति मम आनन्दं मम मनसि आनन्दं भवेत् इति तृप्तिः भवेत् मया काचित् तृप्तिः प्राप्ता इति सः द्यारे द्यारे द्यारे में, शामला अस्तु धन्यवादः भगिनि अग्रिमे श्यामलाभगिनी भवती पठति वा किन्तु अनन्तरदिने अतः पठति वा श्यामलाभगिनी अस्ति वा नास्ति श्रीवत्समहोदयः भवान् पठति वा अनन्तरम् अहं अस्तु अस्तु अस्तु चिन्ता नास्ति किन्तु okay. अनन्तरदिने चर्मकारः धनिकम् चर्म उप उपस उपसर्तर्प्य उपसर्प्य उपसर्प्य तेन दत्तं धनं प्रत्यर् प्रत्यर्पयन् धनस्य रक्षणविषये चिंता प्राप्तवता मया मैं भगवत स्मरण कर्म नस्मा गे उत्ह अ उतंत धने धने आनन्द सनंद क्लेशा अतः कृपया एक प्रतिस्वी स्वीक्रियताम् इति अवदत् इदानीं वदतु स्वस्य भाषायां किम् इति प्रयत्नं करोमि किन्तु प्राप्त धनिकं उपसर्प्य तेन दत्तं धनं प्रापयन् क्षम्यताम् mm. um, किन्तु अनन्तरदिने अनन्तर अनन्तर इत्युक्ते नेक्स्ट् डे नेक्स्ट् चर्मकारः yes. धनिकम् उपसर्प्य उपसर्प्य उप इत्युक्ते उप इति okay. उपसर्गमस्ति उप इति समीप सर्प्य आगत्य धनिकस्य समीपम् आगत्य तेन दत्तं धनं प्रति अर्पयन् प्रत्यर्पयन् प्रति अर्पयन् प्रति अर्पयन् oh, oh. oh, okay. तत्र शत्रुन्तरूपमस्ति परन्तु प्रत्यर्पणं कृतवान् इत्युक्ते पुनः तेन दत्तम् एव धनं सः दत्तवान् इति वाट् एवर् मनीन् टु हिम् येस्टुडे द सेम् मनी सेम् अमौण्ट् वा अस्तु अग्रिमे अग्रिमे किम् अभवत् कः किम् उक्तवान् सः उक्तवान. उक्तवान् धनस्य रक्षणविषये चिन्ता प्राप्तवता मया भगवतः mm -hmm. स्मरणं कर्तुं न शक्तुम् um, धनस्य uh, रक्षणविषये चिन्तां प्राप्तवता मया भगवतः स्मरणं कर्तुं न शक्तम् इत्युक्ते किं महोदय मीनिङ्ग् सः सः धनस्य रक्षणविषये चिन्ता करोति तस्मात् कारणात् भगवतः स्मरणं न ना कर्तु शक्नोति धनस्य रक्षणविषये चोरः आगच्छति चेत् मम धनं हरणं भवेत् धनस्य हरणं भवेत् चेत् किं भवति धनस्य एव चिन्ता भगवतः अभवत् कारणात् तस्मात् किम् अभवत् तस्मात् गायने उत्साहः अपि न उत्पन्नः एव गायने गायने गायने कापि उत्साहः एव न उत्पन्ना धनरक्षणस्य चिन्ता अग्रिमेकः किम् उक्तवान् सः धने सति आनन्दप्राप्तिः क्लेशाय धनम् अस्ति चेत् धने सति अत्रापि सति सप्तमी धने इति सप्तम्यन्त सति धने सति आनन्दप्राप्तिः क्लेशाय धनस्य चिन्ता भवेत् तत् आनन्दम् अपगच्छति सन्तोषप्राप्तिः न भवति धनस्य एव चिन्ता अतः कृपया एतत् इत्युक्ते प्रति महोदयतामिति विधिलिङ्गलकार पुनः तस्य स्वीकरणं करोतु इति प्रार्थयामि सम्यक् अग्रिमे पठति शामला श्यामलाभगिनी भवती पठति वा अन्तिमं पठितुं शक्य हा पठतु एतस्य हा आ, आ, नहीं। नहीं। आ, कि, किंतु, अनन्त, किंतु, एतस्य श्रवणात् धनिकेन पठतु भगिनि आम् आम् इदानीमहं पठामि किं किन्तु एतदन्त भगिनि श्रवणात् न दृश्यते अन्यैः न दृश्यते वा भगिनी एतस्य पठतु एतस्य श्रवणात् एतस्य श्रवणात् एतस्य श्रवणात् धनिकेन गोवल्बेन विवेकः प्राप्तः ततः सः स्वसम्पत्ति मृदङ्गेभ्यः विधीर्य भगवतः स्मरणे उद्येतः अभवत् तस्मात् तस्य तस्मात् तस्य अस्वास्थ्यम् अपि अपगतम् एतत् सर्वं धनिकः श्रुतवान् तेन सह विवेकः प्राप्तः विवेकः प्राप्तः विवेकः इत्युक्ते किम् इत्युक्ते हा वदतु नालेजल् बी नालेजबल् वन् ति होटेल्स् विवेकः इत्युक्ते इति अस्ति खलु सार असारः वी मस्ट् बि एबल् टु डिस्क्रिमिनेट् वट् इस् गुड् वट् इस् हेल्प्फुल् कल्याणकारकम् किमस्ति अकल्याणकारकं किमस्ति कल्याणस्य विषये अपि श्रेयसः प्रेयसः किमस्ति तस्य ज्ञानम् इति विवेकः एतस्य श्रवणात् धनिकेन तृतीयान्तपदं गोवल्लभेन तृतीयान्तपदं विवेकः प्राप्तः हि एस्टुर्ट् इस् right राङ्ग् ततः सः स्वसम्पत्तिं निर्धनेभ्यः वितीर्य भगवतः स्मरणे उद्यतः अभवत् इत्युक्ते किम् किं कृतवान् सः अतः सः स्वसम्पक् निर्धनेभ्यः वितीर्य भगवतः स्मरणेन उद्यत्तः अभवत् हि वा uh, he... uh, तर स्वत्ति निर्धने ये जनाधना सीती तानतवा सह स्वत् सह दान वितीर्ये दान भगवत स्मरण उद्य अब्रद्धा स्थाव तस्मा तस्वास्थ्यम अगत अस्वास्थ्य कारण कमी अंकि मनसी न आसम न आसोषा सतवां अत अत मनसी वासी। यदा स्वस्य आसपत् दान कृतवान निर्धने दत्तवान तदा सन मन, सी मनसी भगवत भगवत स्थापना भगवत स्मरण सह उ तेन तस्वास्थ्यमगत अस्तु स्पष्टमस्ति अस्ति अस्तु अस्तु इदानीं कथायाः विषये वदतु कथा विषये जयन्ती भगिनी वदति वा वदतु केवलं धनेन संतोषं न प्राप्नुमः धनस्य mm. परोपकारं अन्य अन्यपि तस्य उपयोगं कृत्वा एव दानधर्मं कृत्वा एव मनसि सन्तोषं भवति mm. तदर्थं जीवनं भवनीयम् इति mm. कल्याणकारकम् जीवने कल्याणकारकम अन से अस्सी दान तेन पुण्यसंपादन नोचे धन सेनाश जीवन सेनाशीय अकम स्मरा भगिनी त्र तस तानसेन सर्वे जानती खु गसम्राट हाँ संगीतसम्राट तानस तानसन महोदय से गुर आसी स्वामी स्वामीहरिदासः इति एकस्मिन् दिने आलङ्गीर्बाशः तत्र सह सः नृपः सः पृष्टवान् तानसेनमहोदय भवतः गुरुम् अपि अहं द्रष्टुम् इच्छामि गुरोः गा गायनम् अहं श्रोतुमिच्छामि अनन्तरं सर्वे तत्र तत्तु अरण्ये स्थितवान् आसीत् तानसेन महोदयस्य गुरुस्वामी हरिदास नसा तत्र अरण्ये एव स्थितवान् तत्र सर्वे गतवन्तः अनन्तरं बादशा सा सः धनं दास्यामि सर्वं सुखं दास्यामि अत्र मम कृते गायनं करोतु अहं श्रोतुमिच्छामि परन्तु स्वामी हरिदास तदा उक्तवान् ना� आसीत् अहं गायनं करोमि केवलं भगवतः भगवतः कृते एव मम गायनं मम गायनं भवतः पुरतः प्रदर्शनार्थं धनसम्पादनार्थं नास्ति अस्तु अस्तु हा अन्य कोऽपि वक्तुम् इच्छति वा शिरत्समहोदय भवान् वदति वा अम्बिकापतिमहोदय लघु लघु धन धनस्य उपरि विवेकः बहु उत्तमः हे विषये तत्र विवेकः महत्त्वपूर्णः सारसारविवेकः सम्पादनार्थं ये ये मार्गाः सन्ति मार्गाणां चयनं मार्गेषु चयनं योग्य श्रीवत्समहोदय मम विचारः धनः इति लौकिकविषयः तस्मात् कारणात् धनिकः बहु चिन्तितवान् लौकिकविषये तस्य आरोग्यः स्वस्थः नास्ति सम्यक् सम्यक् आरोग्यस्य हानि अभवत् आरोग्यस्य हानि किमर्थम् अभवत् धनसम्पादनं कथं करोमि तस्य एव चिन्ता पुण्यकर्मस्य विषये पुण्यकार्यानि विषये न चिन्तितवानेव सम्यक् योग्यं धन्यवादः रमिणीभगिनी भवती वदति वा वक्तुमिच्छति वा मध्यकाले बहु धनम् अस्ति चेत् अपि अस्माकं सन्तोषं न भवति अतः वयं युवकाले अपि युवकाले युवकसमये धनस्य सम्यक् उपयोगं करणीयं योग्यं सुख्यं सुखभोग भो, सुखभोगस्य कृते उपयोगं न करणीयं किञ्चित् धनं दरिद्र दरिद्राणां कृते अपि उपयोगं करणीयं दानं करणीयं दानेन एव धनस्य सम्यक् गतिः भवति इति उत्तमं धन्यवादः उपभोगपूर्ण उप उपभोगशीला न भवेयुः इति अस्तु अवस्तुमहोदयः किमपि वक्तुमिच्छति वा भगिनी Some, some, some stories I understand a little better, but mm -hmm. these ones I, I, I do prefer to just do a little more too. You should know that. In the next few days, you will be able to do the same thing. You will be able to do the same thing, and you will be able to do the same thing. In the next few days, you will be able to do the same thing. भगिनि वक्तुमिच्छति वा कथायाः विषये कथा कथायां बहु लभ्यते भगिनि तस्य भाषायां वदतु अत्र uh. पश्यन्तु सर्वे अस्तु भगिनि पश्यन्तु अत्र धनसम्पादनं यत् श्रीवत्स्य महोदय उक्तवान् धनसम्पादनं तु आवश्यकं जीवनस्य कृते परन्तु धन धनम् इति साधनरूपेण भवेत् साधन न साध्यः कः भेदः साधनं येन उपयोगेन वयं सुखं वा शान्तिं वा प्राप्तुं शक्नुमः परन्तु साध्य इति न जीवने पुण्यसञ्चनं पुण्यपुण्यकार्यार्थं कल्याणकरमार्ग मार्गस्य एव वयम् उपयोगं कृत्वा धनसम्पादनं भवेत् तेन एव मनसि सन्तोषः जनयति एवम् इति अस्ति कथायाः सारः स्पष्टमस्ति सर्वेषाम् स्पष्टमस्ति वा इदानीम् इदानीमस्ति भगिनी क्षम्यता न अवगतं किं वदति इदानीमहं अस्मि स्पष्टमस्ति अस्तु अस्तु हा अग्रिमे बुधवासरे मेलिष्यामः समापयामः किमपि प्रष्टव्यमस्ति वा वक्तव्यमस्ति चेत् वदतु प्रष्टव्यमस्ति वा किमपि अस्तु अम्बिकाप्रतिमहोदय शान्तिमन्त्रेण समापनं करोति वा पूर्णमधः पूर्णमिदम् पूर्णात् पूर्णमुदच्छ्यदेव पूर्णस्य पूर्णमाधाय पूर्णमेवासिष्यदे ॐ शान्ति शान्ति शान्तिः हरिः ओं तत्स श्रीगुरुभ्यो नमः हरिः ओम्